श्रीमद्भागवतमहापुराणं पञ्चं स्कन्ध अथ तृतीयोऽध्यायः राजानाभिकाचरित्र श्रीशुकुमार नाभिरपत्यकामो प्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषम् अवितात्मा तस्य हावश्रद्धया विशुद्धभावेन जयत प्रवर्येषु प्रचरस्यो द्रव्यकेशकालमन्त्रत्वे दक्षिणां विधानयोगोपपत्त्या दरधिगमोऽपि भगवान् भागवत वात्सल्यतया सुप्रतीक आत्मानम् अपराजितम् निजजनाभिप्रेतार्थभिधिसया गृहीतहृदयो हृदयङ्गं मनोदयनानन्दा नन्दनावयवाभिरामम् आविन् आविश्चकार अथ तमाविकृतम् अथ तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं कपिलकौशेयाम्बरन्धरमुरसि दरवर वनरुहं वनमाला सूर्यमृतं मणिगदादिभिः उपलक्षितं स्फुटकं किरणं त्रिवरमुकुटकुण्डलं कटककटिकशूद्रहारकेयोरनुपुराद्यङ्गभूषणविभूषितं मृद्वेकसदस्य गृहपतयो धनाम् इवोत्तमधनमुपलभ्य स बहुमालमर्हले नावनतं शीर्षाण उपतस्थुः ऋत्विज उचुः अर्हसि मुहुरर्हन्तमार्हण अस्माकमनुपथनां पथानां न मूलभ इत्येतावत् दुपसिं शिक्षितं कोर्हते पुमान् प्रकृते गुणव्यतिङ्करमतिरनिशीनीश ईश्वरस्य परस्य प्रकृते पुरुषयोरर्वाक्तनाभिर्नामरूपा कृतिभिरुपनिरूपणं सकलजनं कायवृचिनं निरसन्न शिवतम् अप्रवरणगुणं जनैकदेशकथाकथनाजिते पर्यलालो रागं बिरचित विरचितशबलशंशब्दसलिलसितकिशलयं तुलसीका दुर्वाङ्कुरैरपि संहृतया सपर्यया किल परमं परितोष्यसि अथानयापि न भवत भरयां समुचितं अर्षमिहो परभापहे आत्मन एवालोशवनं मञ्जसाव्यतिरेकेण बोभूयमानाशेषं पुरुषार्थस्वरूपस्य किन्तु नाथाशिष आशाशालानामे तदभिसन्नाधनमात्रं भवितुमर्हति तद्यथा बालुशानां स्वयमात्मनः श्रेयपरमविदुषां परं परं परं पुरुषप्रकर्षकरुणया त महिमानं चापवर्गाक्षमुकल्पयिष्यन् स्वयं नापचित एवेतर्वदिहोपलक्षित अथायमेवा वरोहार्हस्तप यर्हि वर्षे राजरसे वरदर्शभो लवाण्यजपुरस्पुरुषे क्षणविषय आसीत् असङ्गलिषितज्ञानान्नलं दिधूताशेषबलानां भवत्स्वभावानात्मानामात्मा रामाणां मुनिनामं नवरतपरिगुणितगुणगणं परमङ्गलायलगुणगणकथलोषे तथ कथं चेत् स्खलनं क्षुन्दतनं जिम्भ्रणं दुर्वस्थानादिषु विवशानां न जरन्मरणदशायामपि सकलकस्मलं निरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तो किञ्चायं राजषिपद्यकामप्रजां भवादृशीमासा शारदा ईश्वर माशिषां सर्गापवर्गयोरपि भवन्तमुपधावते प्रजायामर्थ प्रद्ययो धनदमिवं धनफलीकरणं को वा इहं ते पराजितो पराजितयां मायया नवंसितपद्ययानामृतम् अतिविषयविषयं वितरयानामृतं प्रकृतेरनुपासितं महज्जरणं यदुहवाव तव पुनरदं द्रभ्रकर्तरिह क्षमाहूतस्तत्रार्थ धियां मन्दानां नस्तद्ये देवहेलनं देवदेवार्हसि साम्ब्येन सर्वान् प्रति ओढुम् अविदुषां शेषोकुवाच इति निगदने गर्देन, इति निगदेनाभिष्टूयामान् तूयमालो भगवान् अनिमिषर्षभो दर्शदराभिवादिताभिवन्दितचरणसदयं विदमाह ते भगवानुवाच अहो बताह वृषयो भवद्भिरवितन्थ गिर्भिः वरमसुलम्भमभियाचितो यदमुस्यात्मजो मया स दिशो भूयादिति ममाहमेवाभिरूप कैवल्याद् तथापि ब्रह्मवादो न मृषा भवितुं अर्हति ममैव वा हि मुखं द्यन् द्विजदेव कुलम् तता आग्निध्रेर्ये शकलयावतरिष्यामि आत्मतुल्यामनोबमानः शेषोकुमार इति निशामि यन्त्या मेरुदेव्या पतिमभिं धायान्तर्दधे भगवान् बर्हि सी तस्मिन्नेव विष्णुदत्त भगवान् परमर्षिभिः प्रसादितो नाभेह प्रियचकीर्षया तदवरोधायटे मेरुदेव्यां धर्मान् दर्शयितुं कामो वातर्शनानां तृमणानां ऋषीणाम् ऊर्ध्वमन्थीनां शुक्लया तनुवावततार हे श्रीमद्भागुते महापुराणे प्रंशां शयितायां पञ्चमस्कन्धेनाविचरते ऋसभावतारोणां तृतीयोऽध्यायः